श्रीहरये नमः अत असीति दमोऽध्यायः राजोवाच भगवन्यानि शान्यानि मुकुन्दस्य महात्मनः वीर्याणि अनन्तवीर्यस्य श्रोतुमिच्छामहे प्रभो को नु श्रुत्वा असकृद् उत्तमश्लोकसत्कथाः विरमेत विशेषज्ञो विषण्णः तस्य गुणान् गृणीते करो च तत्कर्म करो मनश्च स्तु तस्यो भयलिङ्गमानमे तथैव यत्पश्यति तद्धि चक्षुः अङ्गानि विष्णो रत तज्जनानां पादोदकं यानि भजन्ति नित्यं सूतौ विष्णुरातेन सम्पृष्टो भगवान् भातरायणिः वासुदेव भगवते निमग्नहृदयो ब्रवीत् श्रीशुक उवाच कृष्णस्यासीत्सख कश्चेत् ब्राह्मणो ब्रह्मवित्तमः विरक्त इन्द्रियार्तेषु प्रशान्तात्मा वर्तमानो गृहाशमी तस्य भार्या कुचैलस्य शुद्धामा च पतिव्रता पतिम् प्राह म्लायता वदनेन दरित्राशीतमानाशा वेपमाना अभिगम्य च ननु ब्रह्मन् भगवतः सखसाक्षात् श्रियक्पतेः ब्रह्मणस्य शरण्यस्य भगवान् सात्वतर्षभः तमुपैः महाभाग साधूनां च परायणम् दास्यति द्रविणं भूरि सेदते ते कुटुम्बिने आस्ते दुना द्वारवत्यां भोजवृष्णीयन्दकेश्वरः स्मरतः पादकमलम् आत्मानमभियच्छते किं वर्तकामान् भजतो नात्यभीष्टान् जगद्गुरुः स एवं भार्यया वेप्रो बहुश मृतो अयं हि परमो लाभ उत्तमश्लोकदर्शनम् इति सञ्चिन्त्य मनसा गमनाय मतिं धते अभ्यस्त्युपायनं किञ्चेत् गृहे कल्याणि दीयतां याचित्वा चतुरो मुष्टिन् विप्रान् पृथुक तण्डुलान् तान् भद्वान् भर्द्रे प्राधातुपायनं सतानाधाय विप्रार्घ्य प्रययो द्वारकां किल याचित्वा चतुरो मुष्टीन् वृप्रान् प्रथुकतण्डुलान् चैलखण्डेन तान् बद्ध्वा भर्द्रे प्राधादुपायनं सदानदाय विप्राग्र्यान् प्रयौ द्वारकां किल कृष्णसन्दर्शनं मह्यं कथं स्यादिति चिन्तयन् त्रीणि कुल्मान्यतीयाय सद्विजः विप्रोघन्य अन्धवृक्षिणीनाम् गृहेषु अच्युतधर्मिणां गृहम् द्वयष्टस्सहस्राणां महिषीणां करेर्द्विजः विवेशैकतमं क्षेमब्रह्मानन्दगतो यत तं विलोक्याच्युतो दूरात् प्रिया सहसोत्थाय चाभ्येत्य दोर्भ्यां पर्यग्रहेन्मुदा सख्यप्रियस्य विप्रर्शे रङ्गसङ्काते निर्वृतः प्रीतो नेत्राभ्यां पुष्करेक्षणः पुष्करे क्षणः अथोपवेश्य पर्यङ्के स्वयं सख्यो समर्हणम् उपहृत्यावनिर्जास्य पाधौ पाधवने जनेहे अग्रहिश्चिरस राजन् भगवान् लोकपावनः व्यलिम्पद्दिव्यगन्धेन चन्दना गुरुकुङ्कुमैः धूपैः शुरबिभिर्मित्रं प्रदीपावलिभिर्मुदा अर्चित्वा वेद्यताम्बूलं गां च स्वागतमब्रवीत् कुचैलं मलिनं क्षामं द्विजं दमनि देवी पर्यचरत् साक्षात् अन्तःपुरजनो दृष्ट्वा कृष्णेन अमलकीर्तिना विस्मितो भूतति प्रीत्या अवधूतं सभाजितं, किमनेन कृतं पुण्यं, अवधूतेन भिक्षुणा श्रियाहीनेन लोकेस्मिन् गर्हितेनादमेन च यो असौ त्रिलोकगुरुणा श्रीनिवासेन संवृतः पर्यङ्गस्थां श्रियं चित्वा परिष्भक्तो कथयाञ्चक्रतुर्गाता पूर्वा गुरुकुले सतोः आत्मनो ललिता राजन् करो गृह्य परस्परम् श्रीभगवानुवाच अपि ब्रह्मन् गुरुकुलात् भवता लब्धदक्षिणात् समावृत्तेन धर्मज्ञ भार्योढा सदृशी न प्रायो गृहेषु ते चित्तमकामविगतं तथा नैवादिप्रियसे विद्वन् धनेषु विदितं हि मे केचित् कुर्वन्ति कर्माणि कामैरकथत चेतसः त्यजन्त प्रकृतिर्दैवेर्यथाहं लोकसङ्ग्रहं कच्चिद् गुरुकुले वासं ब्रह्मन् स्मरसि नो द्विजो विज्ञाय विज्ञेयं तमसत् पारमश्नुते स वै सत्कर्मणां साक्षात् द्विजादेकसम्भवः आद्योङ्गयत्राश्रमिणाम् यथाहं ज्ञानदो गुरुः नन्वर्तकोविधा ब्रह्मन् वर्णाश्रमवदामिह ये मया जो तरन्त्यञ्जोभवार्णवम् नखमिज्ञा प्रजादिव्यां तपसोपसमेन वा तुष्येयं सर्वभूतात्मा गुरुशुश्रूक्षयायत अपि न स्मर्यते वृत्तं निवसतां गुरौ गुरुधारैश्चोदिदानम् इन्धनं नयने क्वचेत् प्रविष्टानां महारण्यम् अपौर्तौ सुमहद्विजा वातवर्षमभूतीव्रं निष्ठुरास्तनयित् नवः सूर्यश्चास्तं गतस्तावत् तमसा दिशः निम्नं कूलं जलमयं न प्राज्ञायत किञ्चन भयं वृषं तत्प्रमःनिलाम्बुभेर्निहन्यमाना मुहुरम्बु संप्लवे दिशो विधन्तोत तपरस्परं वने गृहीतहस्ता परिभप्रि मातुराः एतत् विदित्वा रघौ सान्दीप निर्गुरुः अन्वेषमाणो न शिष्यान् आचार्यो पश्यता तुरान् अहोकपुत्रकायूयमस्मधर्तेति दुःखिताः आत्मा वै प्राणिनां प्रेष्ठस्तमनाधृत्यमत्पराः एतदेव हि चिक्षये कर्तव्यं गुरुनिष्कृतम् यद्वै विशुद्धभावेन सर्वार्थ आत्मार्पणं गुरौ तुष्टोऽकम्भो द्विजश्रेष्ठान् सत्याः मनोरताः। चन्तां शयातयामाने भवन्त्विह इत्तं च वसतां विधान्यनीकानि वसतान् गुरुवेश्मसो पुमान् पो पूर्णप्रशान्तये ब्राह्मण उवाच किमस्माभि अनिर्वृत्तं देवदेवजगद्गुरो भवता सत्यकामेन येषां वासो गुरावभूत् यच्छन्तोमयं ब्रह्म देह आवपनं विभो श्रेयसां तस्य गुरुषो वासोऽत्यन्तविडम्बनम् इति श्रीमद्भागवते महापुराणे दशमस्कन्ते श्रीधामचरिते असीदितमोऽध्यायः सर्वत्र गोपिकाजीवनस्मरणं गोविन्दगोविन्द सद्गुरुनाथमहराजके जय